अस अष्टादशोऽध्यायः दोमासो द्वौ मासो निवसत् स्वामी वाराणस्यां ततः परं यदायात तस्य रोगो व्यवधत् पीडतो यद्यपि स्वामी व्याधिनां बलहारिणां तदीयवीर्यं सहजम् अवशिष्टं यथा पठिस्म पठति स्म स आङ्ग्लेयविद्याकोशं बृहद्भृशं सद्यप्रकाशितं पञ्चखण्डसमन्वितं यत्किञ्चित् तेन पठितं पृच्छ पृच्छेत यदि तत्प्रति दुत्तरं स झटित्येव प्रदद्यात् संशयं विना स्मरणक्षमता तस्य नितरां विस्मयावः एतस्मिन् विषये रोगो नाभवद्विघ्नकारकः पुनरुद्धारणं स्वस्य मातृभूम्या सदाभवन् विवेकानन्दवर्यस्य वाञ्छितं तिरकालिकं वेदानां शिक्षणस्यार्थे विशेषपठनालयं नारीणां पाठशालां च निर्मातुं तेन काङ्क्षितम् पीडितं स्वामिवर्यस्य हृदयं शममेव च तिरस्कृतान् घनहीन् धनहीनान् जनानोद्दिश्य सन्ततं सान् साब्दालकर्मकरा केचित् कस्मिंश्चिन् दिवसे पठे जावृता प्राङ्गणे भूव समीकरणकर्मे वर्तन्ते स्म समाजात्ते धनहीना दैनीयकथा तेषां स्वामिना पूर्णत श्रुता विशिष्टभोजनं पश्चात्तेन सञ्जे कृतं तथा अभागेभ्यश्चितेभ्यो हि मुक्तहस्तेन सो ददा नारायणा हि भवतो यूयं सर्वेऽपि वस्तुतः तन्दत्त्वाद्य भोजनं युष्मां देवं सत्कृतवानहम् विलोकितान् कर्मकरान्श इत्येवम् अभाषत समृद्ध समृद्धभक्षदानस्य समापन समापनम अभुज्य राम् व्यलोकेमहं तेषु प्रत्यक्षं दगिश्वरं कियल्लितचित्तास्ते दरिद्राश्च निरक्षराः शक्येत किमुपकर्तुं तेषां दुःखं मनागपि किं वा प्रयोजनं नो चेत् काषायां वरभूषया अन्येषां चेत् श्रेश्रयं श्रेयसे सर्वं सन्त्यक्तुं शक्यते यदि निश्चयेन से अस्माकं देशवासिनां खाद्यांशं च मुखे दातुं शक्नुयां कथम् इत्येवं विधवाक्यानि बहूनि प्रोक्तवानपि तस्मिन् अवसरे स्वामी सम्बोध्य मठवासिनः पूजार्थे मन्दिरं कस्य सन्यासी गतवान् जरा तामी प्रपक्ष कुत्रत्वं त्वं मृगयन् ब्रह्म गच्छसि अवश्यं वर्तते तत्तु शकलेष्वपि वस्तुषु दृष्टिगोचरमद्रैव तत्परो ब्रह्म तत्त्वतः तदस्ति तव हस्तेऽपि स्पर्शयोग्यफलं यथा स्पर्शन्तु तत् किं शक्तस्त्वं ब्रह्म तत्रासि तत्र च सत्वेतान् शक्तिमच्छब्दान् ये वर्तन्तसमन्ततः ते सुता विष्मयस्तब्धा उपपञ्चदशक्षणवान् याति स्म मन्दिरं यस्तु समाधिस्थो बभूवत् तन् मार्जुकस्य पाणिस्थाशोदने निश्चलाभवत् मन्दिरं यश्च संन्यासी गच्छन्न्यासी त्वमन्ततः अद्य त्वं गच्छ पूजार्थम् इत्येवं स्वाम्यभाषत करमाणि स्वामिवर्यस्य नियन्त्रयितुम् उद्यतम् तदीयशः शिष्यैश्च तत्सर्वं किन्तु निष्फलम् तस्यान्त्यदिवसं यावन्मठस्य विषयेषु स प्रदतो मार्गनिर्देशं दृढरीत्या सविस्तरं वेदेतिहाससम्बद्धा वर्गाश्चापि प्रवर्तिता विवेकानन्दवर्यस्य नेतृत्वे तत्र प्रत्यहं दैनिकध्यानविषये मठाङ्गानां विशेषतः स्वामी तत्पर आशीत स जागरुकोऽपितं प्रति भक्षणं शिक्षणं चर्चा ध्यानादिकं यथा कालं भवेदित्येतदर्थं तु घण्टानादः कृतो भवे जीवनस्यान्ति किन्तिमे काले स्वामिवर्यो भवद्भृशं कार्यव्यग्रश्च दिवसा शम्भवे पूरितायपि अत्रालीनिशेष्येभ्यः स्वामिवर्यो लिलेखच बेलुर्मठं समागन्तुं तान् सर्वानपि बोधयन् देशादपि विदेशेभ्यो बहुशिष्याः समागताः तस्यान्तो निकटेऽस्तीति कोऽपि नैव व्यभावयत् स्वभारं मन्दमन्येभ्यो दातुं शोभवं भवदुत्सुक कदाचिद् उक्तवान् स्वामी मार्गमध्ये भवाम्यहं चिन्तामग्निवस्वामी तस्य शिष्यै विलोकितः गुरुदेवस्य वचनं स्मरन्ति स्म तदा च ते स्वयं को वा भवतीति विजानाति नरेन्द्रा तत्कर्मपुरतिसमये निजदेहं स सन्त्यजे भवान् कोऽस्तीति जानाति किमित्येवं तु पृष्टवान् शिष्यः कश्चित्तदा स्वामी जानेऽहं चेत्यभाषत शिष्या सर्वेऽपि निःशब्दा बभूवोस्तदनन्तरं प्रश्नः कोऽपि न पृष्टश्च म्ला म्लानता प्रतिसादता मरणं श यदा वाञ्छे म्येत् स तदैव च झटने सा स्मिताशिष्ये अस्मिन्नवसरे खलु दिने श्वेते सुमरणं सम्मुखं पश्यति स्म शठन्नाशेषपञ्चाङ्गम् अस्मिन् काले पुनः पुन न किञ्चिदपि निर्णेतुं शक्तश इति भाषितम् मृत्योर्दिनत्रयात् पूर्वं कस्य शिष्यं स मडभूमौ सु देहस्य दाहः कुत्र भवेदिति स्वकीयमरणात् पूर्वम् एकादशी तिथौ सु च निवेदितायै प्रदतौ स्वहस्तेनैव भक्षणम् खादनान्तरं तस्या पाणिक्षालनम् उद्दिश उद्दिशन् अपातिय जलं तत्करयोरपि एतत्सर्वं विधातव्यं मयैव तु भवत्कृते मत्कृते भवता नेति कथयामास तदा क्रितदेवोऽपि शिष्याणां पादान् प्रक् प्राक्षालयत्पुरा स्वामिनैवं यदा प्रोक्तं कम्पिता च निवेदिता तदासीत्त्वन्ति किन्तिमे काले वक्तुमेवं तथापि निश्चला सा निजाधरौ पश्चाद्दिनत्रये जाते प्रत्यसे शुक्रवासरे उत्थितः सत्वरं स्वामी गतो देवालयं तथा द्वारवातायन्नादीने स्वामिना मुद्रिता न्यवे पश्चात् घण्टाद्वयं काली समाधिस्तो बभूवच कालीमातारमुद्यस्य गानमेकं मनोहरं गायन्ततः परं स्वामी सोपाडैरवतीर्णवान् विवेकानन्दचरोऽयद्या सिद्धो ग्रहीष्यत विवेकानन्द एषत्तु किं वा विहितवानिति तदापि काले कति वा विवेकानन्दसंहिता जायेरन् भवितेनैवं प्रोक्तं मन्दस्वरेण च षत्वेदं वनं वरं ध्वानं शिष्या प्रकम्पिता यतो हि स्वामिना पूर्वं कदापि न हि भाषितं मध्याह्नभोजनं तेन मठाङ्गैः स तद्दिरे सम्यगास्वाद्य कृतवान् परम् उत्साहेन च नर्मेण सहितं संस्कृतस्य शब्दशास्त्रम् अशिक्षयत् ततीर्थेन सहिकेन पराण्ढें गतवानपि भ्रमणार्थं स्वामिवर्य किञ्चित् कालमितस्ततः वेदविद्यालय कश्चित् स्थापितव्यो मठे खलु पर्यालोचनमेतस्मिन् विषये स तदाकरोत् निजकक्षां गतः स्वामी सहां सायाण्ढे सप्तवादने गच्छेत् कोऽपि न तत्रेति स्वामिवर्यो निरादिशत् एकखण्डामितं कालं ध्याने स निरतोऽभवत् जालकोद्धा कोटनं कर्तुं पश्चात् शिष्यं जगादश शान्तं स्वामि स्वामी निजतल्पे ततः परं वीजनाय निजं शिष्यं योजयामास वै तदा घण्टैकानन्तरं तस्य हस्तौ किञ्चित् प्रकम्पितौ विहितो दीर्घनिश्वास स्वामिनाशं विवच तेन व्यतीते निमिषद्वये निशब्दं निश्चलं शान्तम् अखिलं तदनन्तरं द्यब्धिकें चों चोनविशति शतसङ्ख्यकुवत्सरे जुलै सङ्गीतमाशब्दचतुर्थदिवसे भवत् विवेकानन्दवर्यस्य देहत्यागो यदा भवत् चत्वारि सवयोपस्वस्थाम् अपि न प्राप्तवान् स च नृषरासमायाता मरणं च श्रीकृतम् अकाण्डहृदे आघात यत्युक्तं रोगकारणम् प्रेक्षया समृतश्चेति शिष्यै ज्ञातं सुनिश्चितं श्रीरामकृष्णदेवेन यथा पूर्वं निरूपितं यत् स्थलं स्वामिना प्रोक्तं तत्रैवात्यक्तक्रिया भवद् मठान्तरिक्षे प्रसिता प्लानता चापि शून्यता तथापि स्वामिनः शब्दाशिष्यकर्णे सु निर्णयेयं हं त्यक्तुं जीर्णवस्त्रशमं तनुम् परन्तु नैव मत्कर्म स्थगयामि कदाचर उत्तेजयेयं मनुजानहं सर्वत्र भूतले इत्येवंविधवाक्यानि स्वामिनोक्तानि लेख प्रतिध्वनेयोर्निशं जनानां श्रवणेषु च विवेकानन्दवर्यस्य चरितं प्रेरणात्मकम् आख्यातुं देवभाषायाम् उद्यमं कृतवानहम् दोषा केचन यत्नेऽस्मिन् पण्डितै यदि लक्षिताः क्षम्यताम् इत्यहं जाते तान्